कृष्णयजुर्वेद अरुणप्रश्नः ओ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यषेमदेवहितय्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिशान्तिशान्तिः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुं सस्तनूभिः व्यशेमदेवहितय्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः बृहस्पतिर्दधातु आप मापमपः सर्वाः दिदो मुदः अग्निर्वायुश्च सूर्यश्च सह सञ्चस्करर्भिया वायश्वा रश्मिपदयः मरीच्यात्मानो अद्रुहः देवेर्भुवन पुत्रवत्त्वाय मे सुद महानाम्निर्महामानाः महसो महसस्वः देवीः पर्जन्य सुवरीः पुत्रवत्त्वाय मे सुद अपाश्नुष्णिमपारक्षः वज्रं देवी रजिताभिश्च भुवनं देव सोवरीः आदित्या नदिं देवीं योनिनोर्ध्वमुदीषद शिवा नः शं तमा दिव्या आप ओषधयः सुमृडीका सरस्वती माते व्योम सन्दृशी श्री छाया सुवर्चलाम्बा समेत श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय स्मृतिप्रत्यक्षमैतिह्यम् अनुमानश्चतुष्टयं यदैरादित्यमण्डलं सर्वैरेव विधास्यदे सूर्यो मरीचिमादत्ते सर्वस्माद्भुवनादधि तस्यापाकविशेषेण स्मृद्धं कालविशेषणं नदीवप्रभवात् काचिद अक्षयात्स्यन्दते यथा तां नद्योऽपि समायन्ति सोरुत्सती न निवर्तते येवन्ना समुद्धानाः सर्वे समवयन्त्रितं सतै सर्वैः समाविष्टः ऊरुसन्न विद्याद तदेव लक्षणे अणुभिश्च महद्भिश्च समारोढ प्रदृश्यते सत्व नाधिसत्त्वप्रदृश्यते पटरो विक्लिधः पिङ्कः यदद्वरुणलक्षणम् यत्रै तदुपदृश्यते सहस्रम् तत्र नीयते एकगुंहि शिरो नानामुखे कृत्सनं तदृदु लक्षणम् उभयदः सप्तेन्द्रियाणि जल्पितं त्वेव दिह्यदे शुक्लकृष्णे संवत्सरस्य दक्षिणवामयोः पार्श्वयोः तस्यैषा भवति शुक्रं अन्यद्यजतं ते अन्यद विशुरूपे अहनीद्यौरिवासि विश्वाहिमाया अवसिः भद्रादे पूषन्निह राधिरस्त्विधि नात्र भुवनं नपशवः पूषा न पशवः मौ विद्याद यदद्वै संवत्सरस्य प्रियतमगुं रूपं योऽस्य महानार्थ उत्पस्य मानो भवति इदं पुण्यं कुरुष्वेदि तमाहरणं दद्याद श्री छाया सुवर्चलाम्बा समेदश्री सूर्य सूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय साकम् जनागुं सप्तधमाघोरेकजं षडुद्यमा ऋषयो देवजा इति तेषामिष्ठानि विहितानि धामसः ैरजन्ते विकृतानिरूपशः को नु मर्या अमिधिदः सखा सखायमब्रवीद जघाको अस्मदीषदे यस्तित्याज सखि विदगुं सखायं न वाच्यपि भगो अस्ति यदि गुं शृणोति नहि प्रवेदसुकृतस्य पन्थामिति ऋदुर्दुनानुद्यमानः विननादाभिधावः षष्टिश्च त्रिगुंशका वल्गाः शुक्लकृष्णौ च षष्टिकौ वस्त्राय जरदक्षः वसन्तो वसुभिः सह संवत्सरस्य सवितुः प्रैषकृत्प्रथमस्मृदः अमुनादयदे त्यन्यान् अमोगुश्च परिरक्षतः ये दवाच प्रयुज्यन्ते यत्रैतदुपदृश्यते यदेव विजानीयाद प्रमाणं कालपर्यये विशेषणं तु वक्ष्यामः ऋदूनां तन्निबोधद शुक्लवासा रुद्रगणः ग्रीष्मेणावर्तते सः निज खन्पृथिवीगुं सर्वां ज्योतिषा प्रदिख्येन नसः विश्वरूपाणि वा सा गुंसि आदित्यानां निबोधत संवत्सरीणं कर्मफलं वर्षाभिर्दत गुंसः अदुःखो दुःखचक्षुरिव तत्मापीद शीतेना व्यथयन्निव रुरुदक्ष इव दृश्यते ह्लादयते ज्वलतश्चैव शाम्यतश्चास्य चक्षुषी या वै प्रजाभ्रगृष्यन्ते संवत्सरात्ताभ्रगुष्यन्ते या प्रतितिष्ठन्ति संवत्सरे ता प्रतिष्ठन्ति वर्षाभ्य इत्यर्थः श्रीचायासुवर्चलाम्बा समेतश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अक्षि दुःखोद्धितस्यैव विप्रसन्ने कनीनिके आङ्ग्ले चाद्गणं नास्ति ऋभूणां तन्निबोधत कनकाभानि वा सागुंसि अगतानि निबोधत अन्नमश्नीद मृज्मिद अहं वो जीवनप्रदः यदवाजप्रयुज्यन्ते शरद्यत्रोपदृश्यते अभिधुन्वन्दोभिग्नन्द इव वादवन्दोमरुद्गणाः अमुदोजेदुमिषुमुखमिव सन्नद्धाः सह ददृशेः अपध्वस्तैर्वस्तिवर्णैरिव विशिकासकवर्दिनः अक्रुद्धस्य योत्स्यमानस्य क्रुद्धस्येव लोहिनी हेम तश्चक्षुषी विद्याद अक्ष्णयोः क्षिपणोरिव दुर्भिक्षं देवलोकेषु मनूनामुदकं गृहे यदा वाचप्रवदन्तीः वैद्युतो यान्ति शैशिरीः ता अग्निपवमाना अन्वैक्षद इह जीविकाम परिपश्यन् तस्यैषा भवति इहेह वस्वतपसः मरुतः सूर्यत्वचः शर्मसप्रदा आवृणे श्रीचायासुवर्चलाम्बा समेत श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अदिताम्राणि वासागुंसि अष्टि वज्री शदग्नी च विश्वे देव विप्रहरन्ति अग्निजिह्वा असश्च नैव देवो न मर्त्यः न वरुणो विभुः नाग्निर्नेन्द्रो न ना पवमानः मातृकच्च न विद्यते दिवस्यैका धनुराग्निः पृथिव्यामपराश्रुता तस्येन्द्रो वम्रिरूपेण धनुर्ज्या मच्चिनत्स्वयं तदिन्द्र धनुरित्यज्यं अब्रवर्णेषु चक्षदे ये ददेव शय्योर्वारुहस्पत्यस्य ये दुद्रस्य धनुः रुद्रस्य धनु शिर उत्पिपेष सप्रवर्ग्यो भवत तस्माद्य सप्रवर्गेण यज्ञेन यजदे रुद्रस्य सशिरप्रदिदधाति नैनगुं रुद्र आरुको भवति य एवं श्री छाया सुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अत्यूर्ध्वाक्षोतिरश्चाद शिशिरप्रदृश्यते नैव रूपं न वासागुंसि अन्योन्याम् तु न हि गुस्रादः स तत्तद्देवलक्षणं लोकितोष्णि शारशीर्ष्णिः सूर्यस्योदयनं प्रदि त्वं करोषिण्यञ्चलिकां त्वं करोषि निजानुकां निजानुकामेऽन्यञ्चलिका निजानु अमी वाचमुपासदामिति तस्मै सर्वऋतवो न मर्यादाकरत्वात्प्र पुरोधां ब्राह्मण आप्नोति य एवं वेद स खलु संवत्सर सेनानीभिः सह इन्द्राय सर्वान् कामानभिवहति सद्रप्सः तस्यैषा भवति अवद्रप्सो अगुम् स्युमदीमधिष्ठद इया न कृष्णो दशभिः सहस्रैः आवर्तमिन्द्रशच्या धमन्दम् उपश्नुहितं नृमणा मदद्रामिति यदयैवेन्द्र सदा वृत्या सः असुरान् परिवृच्छति पृथिव्यग स्युमदि तामन्ववस्थितः सगुं वत्सरो दिवं च नैवं विदुषाचार्यान् ते वासिनौ अन्योन्यस्मै दृह्याताम् यो दृह्यदि दृह्यदे स्वर्गाल्लोकाद यदि ऋदुमण्डलानि सूर्यमण्डलान्याख्यायिकाः अद ऊर्ध्वगं स निर्वचनाः श्रीचायासुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अरोगो व्राजःपटरः पतङ्गः स्वर्णरोग्यो दिशि मान् विभासः ते अस्मे सर्वे दिवमा तपन्ति ऊर्जं दुहा न अनपस्फुरन्त इति कस्य पोष्टमः स महामेरुं न जहाति तस्यैषा भवति यत् ते शिल्पं कस्यव इन्द्रियावद् पुष्कलं चित्रभानु यस्मिन् सूर्या अर्पिता सप्तसाकं तस्मिन् राजानमधि विश्रयेममिति ते अस्मै सर्वे कस्य पाज्योधिर्लभन्ते तान् सोमपश्य पादधि निर्धमधि भ्रस्ताकर्म हृदि वैवम् प्राणो जीवानीन्द्रियजीवानि सप्तशीर्षण्याः प्राणाः सूर्या इत्याचार्याः अपश्य मखमेधान्सप्तसूर्यानिति पञ्चकर्णो वात्स्यायनः सप्तकर्णश्च प्लाक्षिः आनुश्रविक एव नौ कश्यप इति उभौ वेदयिते नहिष्ये गुमिव महामेरुं गन्तुम् अपश्यमहमेधसूर्यमण्डलं परिवर्तमानं गार्ह्य प्राणत्रादः गच्छन्त महामेरुं ये कञ्चाजहतम् भ्राजपडरपदङ्का तिष्ठन्नातपन्ती तस्मादिह तप् ितपाः अमुत्रेतरे तस्मादिहा तप्त्रितपाः तेषामेषा भवति सप्तसूर्या दिवमनुप्रविष्टाः तानन्वेधिपतिभिर्दक्षिणावान् ते अस्मै सर्वे कृदमादबन्ति ऊर्जं दुहाना अनपस्फुरन्त इति सप्त ऋत्विजसूर्या इत्याचार्याः तेषामेषा भवति सप्त दिह्यो नानासूर्याः सप्त होदारऋत्विजः देवा आदित्या सप्त तेभिः सोमाभि रक्षण इति तदप्याम्नायः दिग्भ्राजऋतोन्करोति यदयैवावृता सहस्रसूर्यताया इति वैशम्पायनः तस्य एषा भवति यद्याव इन्द्रदेशदगुं शतं भूमीः उदस्युः नत्वा वजृंसहस्रगुं सूर्याः अनुनजादमष्ट रोदसी इति नानालिङ्गत्वादृदूनां नाना सूर्यत्वम् नाना सूर्यत्वं इति सूर्यमण्डलान्यष्टादौ ध्वं तेषामेषा भवति चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राद्या वा पृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्तुषश्चेदि श्रीछायासुवर्चलाम्बा समेध श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय क्वेदमभ्रम निविशदे क्वायगुं संवत्सरो मिधः क्वाः देवरात्री क्व अर्धमासा मुहूर्ताः निमिषास्तुडिभिस्सह क्वेमावो मा निविशन्ते यदिदो यान्ति सम्प्रति कालाप्सो अप्सो निविशन्ते आपसूर्ये समाहिताः अभ्राण्यपप्रपद्यन्ते विद्युत्सूर्ये समाहिता अनवर्णे इमे भूमि इयञ्च सौचरोदसि किग्स्विदत्रान्तराभूतं येने मे विदृधे उभे विष्णुना विदृधे भूमि यदि वत्सस्य वेदना इरावधि धेनुमदीः भूदं वसिनी मनुषे दशस्ये व्यष्टभ्ना द्रोदसी विष्णवेते दा धर्तपृथिवीमभितो मयूखैः किं दद्विष्णोर्बलमाहुः पा दीप्ति किं परायणं एको यद्धारयद्देवः रजती रोदसी उभे पदाद्विष्णोर्बलमाहुः अक्षराद्दीप्तिरुच्यदे त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत् उत्तमम् अग्नयो वायवश्चैव यदस्य परायण्णम् पृच्छामि त्वापरं मृत्युम् अवममध्यमं च धुम् लोकं च पुण्यपापानाम् यत् पृच्छामि सम्प्रति अमु मासु परं पवमानं तु मध्यमम् अग्निदेवा वमो मृत्युः चन्द्रमाश्चतुरुच्यते अनाभोगापरं मृत्युं पापः सह्यन्ति सर्वदा अभोगास्त्वेव सह्यन्ति यत्र पुण्यकृतो जनाः ततो मध्यममायन्ति चतुमग्निं च पृच्छामि त्वा पापकृदः यत्र यादयदे यमः त्वन्नस्तद् यदि वेद्धा सदो गृहान् कश्यपादुदिता सूर्याः पापान्यर्घ्नन्ति सर्वदा रोदस्योरन्तर्देशेषु तत्र न्यस्य वासवैः ते शरीरा प्रपद्यन्ते यथा पुण्यस्य कर्मणः अपाण्यपादकेश सह तत्र ते योनिजा जनाः मृत्वा पुनर्मृत्युमापद्यन्ते स्वकर्मभिः आशातिकाकृय इव तदपूयन्ते वासवैः अपैतं मृत्युं जयति य एवं वेद स खल्वैवं विभ्राह्मणः दीर्घश्रुत्तमो भवति कश्य पश्यातिथिसिद्धगमनसिद्धागमनः तस्यैषा भवति आयस्मिन् सप्तवासवाः रोहन्ति पूर्व्या रुहः ऋषिर्सदीर्घश्रुत्तमः इन्द्रस्य कर्मो अधिरिति कस्य भश्य को भवति यत्सर्वं परिपश्यतीति सौक्ष्म्याद् अधाग्ने रष्टपुरुषस्य तस्य इषा भवति अग्ने नय सुपधा राये अस्मान् विश्वानि देववयुनानि विद्वान् युयोध्यस्मज्जुहुराण मेनः भूयिष्ठान्ते नम उक्तिं विधेमेधि श्रीछाया सुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अग्निश्च जादवेदाश्च सहोजा अजिरा प्रभुः वैश्वानरो नर्यापाश्च पङ्क्तिराधाश्च सप्तमः विसर्पे वाष्टमोऽग्नीनाम् यतेष्टौ वसवः क्षिता यदि यद्धर्त्वे वाग्नेरर्चिर्वर्णविशेष नीलार्चिष्च पीतकार्चिश्चेदि अथवा योरेकादश पुरुषस्यैकादशस्त्रीकस्य प्रजमाना व्यवदाः याश्च वा सुगि वैद्युदाः रजदा परुषास्यामाः कपिला वैद्युद इत्येकादश नै न वैद्युदोहिनस्ति य एवं वेद सहो वाचव्याश्र पाराशर्यः विद्युद्वधमेवाहं मृत्युमयिश्चमिति न त्वपामगं हन्ति य एवं वेद अथ गन्धर्वगणाः अङ्कारिर्बम्भारिः हस्तसुहस्तः कृशानुर्विश्वा वसुः मूर्धन्वान् शूर्यवर्चाः कृदित्येकादश गन्धर्वगणाः देवाश्च महादेवाः रश्मयश्च देवा गरगिरः नैनम गरोहिनस्ति नस्ति य एवं वेद गौरीमिमाय सलिला निक्षदी एकपदी द्विपदी सा च दुष्पदी अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्यो मन्य वाचो विशेषणम् अध निगतव्याख्याताः ताननुक्रमिष्यामह वराहवः स्वतपसः युद्युन्महः सो धूपयः स्वापयो गृहमेधाश्चेत्येदे ये चेमेशिमि विद्विषः वृष्टिभिरिति ये दयैव विभक्ति विपरीताः सप्तभिर्वादैरुदीरिताः अमुल्लोकानभिवर्षन्ति तेषामेषा भवति समानमेदुदकम् उच्चैत्यवचाकभिः भूमिं पर्जन्या जिह्वन्ति दिवं जिह्वन्त्यग्नय इति यदक्षरम् भूतकृदम् विश्वे देवा उपासदे महर्षिमस्य गोप्तारम् जमदग्निमकुर्वद जमदग्निराप्यायदे छन्दोभिश्चतुरुत्तरैः राज्ञोमस्य तृप्ता सह ब्रह्मणा वीर्यावदा शिवानः प्रदिशो दिशः तच्च यौरावृणीमहे गाधुयज्ञाय गाधुयज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगादुभेषजं शं नो अस्तु द्विपदे शञ्च सोमपा असोमपा इति निगतव्याख्यादाः श्रीचायासुवर्चलाम्बा समेदश्री, श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय सहस्रवृदीयं भूमिः परं व्योम सहस्रवृद अश्विना भुज्यो नासत्या विश्वस्य जगतस्पदी जाया भूमिपदिर्व्योम मिधुनन्ता अधुर्यधुः पुत्रो बृहस्पतिरुद्रः शरमा इति स्त्री पुमं शुक्रं वा मन्यजदं वा मन्यद विशुे अहनी दौरीवस्थ विश्वायावधस्वधातौ भद्रंवाषण विहरादिस्थ वसाऊ चित्रौ जगदो निधानौ दवा भूमि चरध स गुम तवश्विना रासभाश्वापवं मे शुभस्पदी आकदगुं सूर्यया सह त्युग्रोह भुज्युमश्विनोद मेघे रयिन्न कश्चिन्मृवा अवाहा तमोहधुर्नौभिरात्मन्वदीभिः अन्तरिक्षपृद्भिरपोदकाभिः तिस्रः क्षपस्त्रिरः तीव्रजद्भिः न सत्या भुज्यो मूहधुपदङ्कैः समुद्रस्य दन्वन्नार्द्रस्य पारे त्रिभिरथै शतपद्भिः षडश्वैः सवितारं वितन्वन्तम् अनुबध्नादिशाम्बरः अपपो शम्बरश्चैव सविता रेप सोभवद त्यगं सुतृप्तं विदित्वैव बहुसोमगिरं वशी अन्वेदितु ग्रो आय सूयान्सोमतृप्सुषु सङ्ग्रामस्तमो द्योत्योदः वाचो गापि बाधि तेत्यन्ये रक्षसा नन्विताश्च अन्वेदि परिहृत्यास्तः एव मेदौ स्थो अश्विना ते ये देद्युपृथिव्योः अहरहर्गरुभं दधाथे तयोरे तव वत्सा वहोरात्रे पृथिव्या अहः दिवो ता अविसृष्टौ दम्पती एव भवदः तयोरेदौ वत्सौ अग्निश्चादित्यश्च रात्रेर्वत्सः श्वेद आदित्यः अह्नोग्निः ताम्रो अरुणः ता अविसृष्टौ दम्पती एव भवदः तयोरेदौ वत्सौ वृत्रश्च वैद्युतश्च अग्नेर्वृत्रः वैद्युत आदित्यस्य ता अविसृष्टौ दम्पती एव भवतः तयोरेतौ वत्सौ उष्माच च वृत्रस्योष्मा वैद्युतस्य निहारः तौ तावेव प्रतिपद्येते स यगुमरात्री गर्भिणी पुत्रेण संवसति तस्या वा एदुल्बणं यद्रात्रौ रश्मयः यधा गो प्रज इष्णुप्रजया च पशुभिश्च भवति य एवं वेद यदमुद्यन्तमपि यन्तं चेदि आदित्यपुण्यस्य वत्सः अध पवित्रागिरसः श्रीचायासुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय पवित्रवन्धपरिवाजमासदे पितैषा आं प्रत्नो अभिरक्षदिव्रतं महसमुद्रं वरुणस्तिरोदधे धीरा इच्छे गोर्धरुणेष्वारभं पवित्रं ते विदधं ब्रह्मणस्पदे प्रभुर्गात्राणि पर्येशि विश्वदः अदप्तनुर्न ददामो अश्नुदे श्रुधास इद्वहन्तस्तत्समाशद ब्रह्मादेवानाम् असदसद्ये तदक्षुः ऋषयसप्तात्रिश्च यद् सर्वे त्रयो अगस्त्यश्च नक्षत्रैः सङ्कृतो वसन् अध सविदुष्यावाश्व वर्तिकामस्य अमीय ऋक्षा निहिता च उच्चा नक्दन्ददृशे कुहचिद्दिवेयुः अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्षत्रमेदि तत् सविदुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयाद तत्सविदुर्वृणीमहे वयं देवस्य भोजनं श्रेष्ठं सर्वधातमं तुरम्भगस्य धीमहि अपागुषद सवितातृभीन् सर्वान् दिवो अन्धसः न क्तन्धान्यभवन् दृशे अस्ध्यस्ना सम्भविष्यामः नाम नामैव नाम मे न पुगुं सकं पुमागुस्त्यस्मि स्थावरोऽस्म्यथ यजयक्षि यष्टाहे च मया भूतान्ययक्षद पशवो मम भूतानि अनुबन्ध्योऽस्म्यहं विभुः स्थिय सतीः ता उ मे पुगुंस आहुः पश्य कविर्यपुत्र स इमा चिकेद यस्ता विदुपिदासद अन्धो मणिमविन्दद तमनङ्गुलिरावयद तम तमजिह्वा असश्चद ऊर्ध्वमूलमवाक्षाखं वृक्षं यो वेदसंप्रदी न स जादुजनः श्रद्ध्याद मृत्योर्मा मारयादिः हसितगुमृदितङ्गीतं वीणापणवलासिदं मृदं जीवञ्च अङ्गानिस्ने विद्धि तद अदृश्यगुस्तृष्य ध्यायद अस्माज्जादा मे मिधूचरन् पुत्रो निर्वृत्या वैदेहः अचेता यश्चेतनः सदम् मणिमविन्दद सोग्रीहप्रत्यमुञ्चद सो जिह्वो अस्वच्छद नैदमृषिं विदित्वा नगरं प्रविषेद यदि प्रविशेद मिधौ चरित्वा प्रविशेद तत्सम्भवस्य व्रतम् तमग्ने रथन्धिष्ठ एका अश्वमेकयोजनं एकचक्रमेकधुरं वादध्राजिगदिं विभो नरिष्यदि न व्यर्थदे नास्याक्षो यादु सज्जति यच्छ्वेतान् रोहिताग्नेः रथे युक्त्वाधितिष्ठति एकया च दशभिश्च स्वभूतेर्वाभ्यामिष्टये विगुंशत्या च तिसृभिश्च वहस्ये त्रिगुंशता च नियुग्भिर्वायविहता विमुञ्च श्रीछायासुवर्चलाम्बा समेदश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अदनुष्वप्रदनुष्व उद्धमाधमसन्धम आदित्ये चन्द्रवर्णानां गर्भमाधेहि यः पुमान् इदसि कृतगुं सूर्यगदं चन्द्रमसेरसंकृधिं वारादम् जनयाग्रेग्निं येको रुद्र उच्यते असङ्ख्यादासहस्राणि स्मर्यते न च दृश्यते एवमेदं निबोधत आमैन्द्ररिन्द्रहरिभिः या हि मयूररोमभिः मत्वा के जिन्निये दधन्वेव ता इह मां मैन्द्ररिन्द्रहरिभिः यमिमयूररोमभिः मां के जिन्नि ये मुरिन्नपासिनः निधन्वेव ता अम् इमि अणुभिश्च महद्भिश्च निघृश्र्वै रसमायुतैः कालैहरित्वमापन्नैः इन्द्राया हि सहस्रयुग अग्निर्विभ्राष्टिवसनः वायुष्वेदशिकद्रुकफ संवत्सरो विषुवर्णैः नित्यास्तेऽनुच्चरास्तव सुब्रह्मण्योऽगुम् सुब्रह्मण्योऽगुम् सुब्रह्मण्योम् इन्द्रागश्च हरिव आगच्छ मेधातिधेः मेष वृषणश्वस्य मेने गौरा वस्कन्दिन्नहल्यायै जार कौशिकब्राह्मण गौदमब्रुवाण अरुणाश्वा इह गदाः वसवपृथिवीक्षितः अष्टौ दिग्वाससोऽग्नयः अग्निश्च जादवेदाश्चेत्येदे ताम्राश्वास्ताम्ररथाः ताम्रवर्णास्तसिताः दण्डहस्ताक्कादग् ददः इतो रुद्रा परां गदाः उक्तगुस्थानं प्रमाणञ्च पुर इद बृहस्पतिश्च सविताच च विश्वरूपैरिहा गदां रजेनाोदकवर्त्मना अप्सुषा इति तद्वयोः उक्तो वेशो वासागुंसि च कालावयवानामिधप्रतीज्या वास्या इत्यश्विनोः कोन्तरिक्षे शब्दं करोतीति वासिष्ठो रौहिणो मिमागुंसां चक्रे तस्यैषा वाश्रेव विद्युदीदी। ब्रह्मण उदर नमसि ब्रह्मण उदीरनमसि ब्रह्मण आस्तरणमसि ब्रह्मण उपस्तरनमसि श्रीख्याया सुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अप् प्रक्रामधर्भिण्यः अष्टयोनीमष्टपुत्रान् अष्टपत्नीमिमां महीम् अहं वेदन मे मृत्युः न च मृत्युरकाहरद अष्टयोन्यष्टपुत्रम् अष्टपदिदमन्तरिक्षम् अहं वेदन मे मृत्युः न च मृत्युरका हरद अष्टयोनीमष्टपुत्राम् अष्टपत्नी ममुदिवम् अहं वेदन मे न चामृत्युरका हरद सुत्रामाणं महीमूषु अदिर्द्यौरदिरन्तरिक्षम् अधिर्मादास पिता स पुत्रः विश्वे देव अदिधिः पञ्च जनाः अदिधिर्जादमधिधिर्जनित्वम् अष्टौ उपप्रैत्सप्तभिः परा मार्ताण्डमास्यद सप्तभिः पुत्रैरदिः उपप्रैत्पूर्व्ययुगम् प्रजायै मृत्यवेदद परा मार्ताण्डमाभरदि ताननुक्रमिष्यामः मित्रश्च वरुणश्च धादा च आर्यमाच अगुंसश्च भगश्च इन्द्रश्च विवस्वागुश्चेत्येते हिरण्यगर्भोहगुंसुचिषद ब्रह्मजज्ञानं तदित्पदमिति गर्भप्राजापत्यः अध पुरुषः यथास्थानं गर्भिण्यः श्रीछायासुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय योऽसौ तपन्नुदे स सर्वेषां भूतानां प्राणानादा यो देदी मा मे प्रजायामा पशूनां मा मम प्राणानादायोदगः असौ योऽस्तमेति स सर्वेषाम्भोदानां प्राणानादायस्तमेति मा मे प्रजाया मा पशूनाम् मा मम प्राणानादायास्तङ्गाः असौ य आपूर्यदि स सर्वेषाम्भूतानां प्राणैरापूर्यति मे प्रजाया मा पशूनां मा मम प्राणैरापूरिष्ठाः असौ यो पक्षीयदि स सर्वेषां भूतानां प्राणैरपक्षी यदि मा मे प्रजायामा मम प्राणैरपक्षेष्ठः अमोनि नक्षत्राणि सर्वेषां भूतानां प्राणैरव प्रसर्वन्ति चोत्सर्वन्ति च मा मे प्रजायामा पशूनां मा मम प्राणैरभ प्रसृपद मोत्सृपद इमे मासाश्चार्धमासाश्च सर्वेषां भूतानां प्राणैरव प्रसर्वन्ति चोत्सर्पन्ति च मामे प्रजायाम पशूनां मा मम मा, प्राणैरव प्रसृपदमोत्सृपद इमऋतवः सर्वेषां भोधानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च मामे प्रजायाम मा पशूनाम् मा मम प्राणैरव प्रसृपद मोत्सृपद अयगं संवत्सरः सर्वेषां भूतानां प्राणैरव प्रसर्पदि चोत्सर्पदि च मामे प्रजायामा पशूनां मा मम प्राणैरव प्रसृप सृपः इद महः सर्वेषां भूतानां प्राणैरपप्रसर्पदि चोत्सर्पदि च मे प्रजाया मा पशूनां मां मम प्राणैरपप्रसृप मोत्सृप इयगं रात्रिः स सर्वेषां भूतानां प्राणैरव प्रसर्पदि चोत्सर्पदि च मामे प्रजाया मा पशूनां मा मम प्राणैरव प्रसृपमोत्सृप ॐ भूर्भुवस्वः यदद्वो मिथुनं मानो मिथुनगुं श्री छाया सुवर्चलाम्बा समेत श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अधादित्यस्य अष्टपुरुषस्य वसूनामादित्यानागुस्थाने स्वतेजसाभनि रुद्राणा मादित्यानागस्थाने स्वतेजसाभानी आदित्याना मादित्यानागुस्थाने स्वतेजसाभी सदा गं सत्यानाम् आदित्यानागुस्थाने स्वतेजसाभनि अभि धुन्वर्दामभिघ्नदां वादवदामरुदाम् आदित्यानागस्थाने स्वतेजसाभानी ऋभूणामादित्यानागस्थाने स्वतेजसाभानी विश्वेशां देवानाम् आदित्यानागस्थाने स्वतेजसाभानि संवत्सरस्य सविदुः आदित्यस्य स्थाने स्वतेजसाभानि ॐ भोर्भुवः स्वः रश्मयो वो मिथुनं मानो मिथुनगुम्रीढ्वं श्रीच्छायासुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय आरोगस्य स्थाने स्वतेजसाभानि ब्राजस्य स्थाने स्वतेजसाभानि पडरस्य स्थाने स्वतेजसाभानि पदङ्गस्य स्थाने स्वतेजसाभानि स्वर्णस्य स्थाने स्वतेजसा भानि ज्योतिषीमदस्य स्थाने स्वतेजसा भानि विभासस्य ॐ भूर्भुवः आपो वो मिथुनं मानो मिथुन गुं रिढ्वं श्रीच्छायासुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अथवायोरेकादशपुरुषस्यैकादशस्त्रीकस्य प्रभ्राज रुद्रगस्तानेवतेजस भानी व्यवदाननागम रुद्रगस्थनेवतेजस भानी वास्ुक वैद्युदानगम रुद्रगस्थानेतेजस भानी रजता रुद्रगस्तानेतेजसानि परम रुद्रगुस्तानेवतेजस भानी श्यामगम रुद्रगस्तानेतेजस भानी अदिलोहितागम रुद्रणगस्ताने स्वतेजस भानी ऊर्ध्वागम रुद्रगस्ताने स्वतेजस भानी आव पदंता नगम रुद्रगस्ताने वैद्युतागम रद्रागस्तानेतेजस भानी प्रभ्राजमागमुद्राणीनागस्ताने स्वेजसभा व्यवदतीती नागमुद्राणीनागस्तानेतेजस भानी वासुगिवैद्युतीनागमुद्राणीनागस्ताने स्वते जानी रजता नगमुद्राणी नागस्ताने स्वतेजस भानी परुषाण गुद्राणी नागस्ताने स्वतेजस भानी श्याम गमुद्राणी नागस्ताने स्वतेजस भानी कपिला गमुद्राणी नगस्ताने नगमुद्राणीना गुस्ताने तेजस भानी ऊर्ध्वागमुद्राणीना नगस्ताने तेजस भानी अव पदन्दिना गमरुद्राणि नागुस्थाने स्वतेजसा भानि वैद्युतीना गमरुद्राणि नागुस्थाने स्वतेजसा भानि ॐ भूर्भुवः स्वणि वो मिथुनं मानो श्रीछायासुवर्चलाम्बा समेध श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अथाग्नेरष्टपुरुषस्य अग्ने पूर्वदिश्यस्य स्थाने स्वतेजसाभानि जाधवेदः स उपदिश्य स्थने स्वेजस भानि सहो जसो दक्षिणिश्य स्था स्वेजसानिजिराभव उपदिश्य स्थानेजसभा उप वैश्वापरदिश्य स्थास्वसभा नर्यापस उपदिश्यस्य स्थाने स्वतेजसाभानी पङ्क्तिराधस उदश्यस्य स्थाने स्वतेजसाभानि विसर्पिण उपदिश्यस्य स्थाने स्वतेजसाभानि ॐ भूर्भुवः दिशो वो मिथुनं मानो मिथुनगुं्रीढ्वं श्रीच्छायासुवर्चलाम्ब समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय दक्षिणपूर्वस्यां दिशि विसर्पी नरकः तस्मान्नः परिपाही। दक्षिणापरस्यं दिश्यविसर्पी नरकः तस्मान्न परिपाहे उत्तरपूर्वस्यां दिशिविषादी नरकः तस्मान्न परिपाहे उत्तरापरस्य दिश्यविषादी नरकः तस्मान्न परिपाहि आ यस्मिन् सप्तवासवा इन्द्रियाणि शदक्रदविद्येते श्रीछायासुवर्तलाम्बा समेध श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय इन्द्रघोषा वो वसुभि मनोजवसो व पितृभिर्दक्षिणद उपदधतां प्रचेदा वो रुध्रैः पश्चादुपदधतां यः सर्वोऽग्निपृथिव्यां वायुरन्तरिक्षे सूर्यो दिवि चन्द्रमादिक्षु नक्षत्राणि स्वलोके ये वाह्ये वा ये वाह्यग्ने ये वा हि वायो ये वाहीन्द्रा ये वा हि पूषन् श्रीछायासुवर्चलाम्बसमेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय आप मा पामपः सर्वाः अस्मादस्मादिदो मुदः अग्निर्वायुश्च सूर्यश्च सह सञ्जस्करभिया वायुवश्वा रश्मिपदयः मरीच्यात्मनो अद्रुहः देवीर्भुवनसूवरीः पुत्रवत्त्वाय मे सुध महानाम्निर्महामानाः महसो महसस्वः देवीपर्जन्यसुवरीः पुत्रवयमे सुदः अपाष्णुष्णिमपारक्षः अपास्न्युष्णिमपारखम् अपाख्रमप चावर्दिम् अपदेवीरिदोहिद वज्रं देवीरजिताविष्ट भुवनं देव सुवरीः आदित्या नादिं देवीं यो निनोर्ध्वमुदिषद भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागं सस्तनूभिः व्यस्येम देवहृदयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति न स्तार्च्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु येदवो अरुणासश्च ऋषयो वादरशनाः प्रदिष्ठा गुंशदधाहि समाहितासो सहस्रधाय सन् शिवा नश्चन्दमा भवन्धो दिव्या आप ओषधयः सुमृडिका सरस्वती मा देव्योम सन्दृशी श्रीछायासुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय यो पां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपां पुष्पं पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेद योपामायतनं आयतनवान् भवधि अग्नेर्वा अपमायतनम् आयतनवान् भवति योऽग्नेरायतनं वेद आयतनवान् भवदि अपो वा अग्नेरायतनम् आयतनवान् भवति य एवं वेद यो पमायतनं वेद आयतनवान् भवति वायोर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनं वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेद यो पामायतनं वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् यो योमुष्यतपद आयतनं वेद आयतनवान् भवदि आपोवा अमुष्यतपद आयतनम् आयतनवान् भवदि य वेदा, वेद योपमायतनं वेद आयतनवान् भवति चन्द्रमा वा अपमायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनं वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवम् वेद यो वामायतनं वेद आयतनवान् भवति नक्षत्राणि वा आपा मायतनम् आयतनवान् भवति यो नक्षत्राणामायतनं वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद यो पा मायतनं वेद आयतनवान् भवति पर्जन्यो वा अपमायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनं वेद आयतनवान् भवदि आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेद यो पमायतनं वेद आयतनवान् भवति संवत्सरो वा अपह्मायतनम् आयतनवान् भवति यसंवत्सरस्यायतनं वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद योऽप्सु नावम् प्रदिष्टितां वेद प्रत्यवतिष्ठति इमे वै लोका अप्सु प्रदिष्टिताः तदेशाभ्यनूक्ता अपागुं रसमुदयगुंसन् सूर्ये शुक्रगुंसमाभृधन् अपागुं रसस्य तं वो गृह्णाम्युक्तममिति इमे वै लोका अपागुं रसः ते मुष्मिन्नादित्ये समाभृताः जानुदग्निमुत्तरवेदीं खात्वा अपां पूरयित्वा गुल्फदघ्नं पुष्करपर्णाय पुष्करदण्ढैः पुष्करैश्च सगुस्तीर्य तस्मिन् विहायसे अग्निं प्रणीयोपसमाधाय ब्रह्मवादिनो वदन्ति कस्मात् प्रणीते यमग्निश्चीयते सा प्रणीते यमप्सु ह्ययञ्जीयते असौ भुवनेप्यनाहिताग्निवेदाः तमभिधयेदाभीष्टक उपदधाधि अग्निहोत्रे दर्शपूर्णमासयोः पशुबन्धे च अधो आहुः सर्वेषु यज्ञ कृतुष्विधि ये दधस्म वा आहुषण्ठिलाः स्त्रिय मग्निंचिन्वानः संवत्सरं प्रत्यक्षेण कामाग्निंचिनुदे सवित्रमग्निञ्चिन्वानः अमुमादित्यं प्रत्यक्षेण कामाग्निंचिनुदे नाचिकेदमग्निं प्राणान् प्रत्यक्षेण कामाग्निंचिनुदे चादुर्होत्रियमग्निञ्चिन्वानः ब्रह्मप्रत्यक्षेण कमग्निञ्जिनुदे वैश्वसृजमग्निं चिन्वानः शरीरं प्रत्यक्षेण कमाग्निं चिनुदे उपानुवाक्यमाशुमग्निं चिन्वानः इमान् लोकान् प्रत्यक्षेण कमिंचिनुदे इम्मा व्यदी पादी तमीति योने वेद मिथुनवान्भव आपो वाने मिथूयाः मिधु मिथुनवान् भवति य एवं वेद श्रीछायासुवर्चलाम्बा समेद श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय आपो वा इदमासन् सलिलमेव सप्रजापतिरेकः समभवद तस्यान्तर्मनसि कामः समवर्तत यदग्ं सृजेयमिति तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा करोति तदेषाभ्यनूक्ता कामस्तदग्रे समवर्तताधी मनसोरेधप्रथमय्यदासीद सदो बन्धुमसदिनिरविन्धन् हृदि प्रदिश्य कवयो मनीषेधि उभैनं तदुपनमदि यत्कामो भवदी य एवं वेद स स तपस्तप्त्वा शरीरमधूनुदा तस्य जन्मागुं समासीद तदोऽकेदवो वादर्शना ऋषय उदतिष्ठन् ये नखाः ते वैखानसाः ये वालाः ते वालकिल्याः यो रसः सोऽपा अन्तरधकोर्मं बोधगं सर्वन्धं तमब्रवीद मम वै त्वं माघुं सा समभूद नेत्यब्रवीद पूर्व मे वाह मिहा समिति भूत्वोदतिष्ठद तमब्रवीद त्वं वै पूर्वगुं समभूः सइद पूर्व कुरुष्वेदि स इद आदायापः अञ्जलिनापुरस्तादुपादधाद ये तद आदित्य उदतिष्ठद सा प्राचीदिक अधरुणके दुर्दक्षिणद उपादधादये वा ह्यग्न इति तदो वा अग्निरुदतिष्ठद सा अधारुणके दुःपश्चादुपादधाद ये वा हि वा, वा, वा इति तदो वायुरुदतिष्ठद सा प्रतीचीदिक दुरुत्तरद उपादधाद ये वा तदो वा इन्द्र उदतिष्ठद सोदीचीधिक अधारुणके दुर्मध्य उपादधाध ये वा हि पूषन्निधि ततो वै ये वा हि देवा इति ततो देवमनुष्यापितरः गन्धर्वाप्सरसश्चोदतिष्ठन् सौर्ध्वाधिक या विप्रोषो विपरापदन् ताभ्योऽसुरारक्षागुंसि पिशाचाश्चोदतिष्ठन् तस्मात् तस्माते पराभवन विप्र भ्यो हि देशमभवन् तदेषाभ्यूक्ता आपोह यद्बृहदेर्गर्भमायन् दक्षम् दधाना जनयन्ति स्वयम्भुम् तद इमेध्य सृज्यन्तसर्गाः अद्भ्यो वायिदगुंसमभूद तस्मादिदगुं सर्वं ब्रह्म स्वयं भुयदि तस्मादिदगुं सर्वगं शिथिलमिवा ध्रुवमिवा भवद प्रजापतिर्वा वदद आत्मनात्मानं विधाय तदेवानुप्रविशद तदेषाभ्यनूक् विधाय लोकान्विधाय भूतानि विधाय सर्वा प्रदिशो दिशश्च प्रजापधिप्रथमजाहृतस्य आत्मनात्मान्नमभिसंविवेशेदि सर्वमेवेदमाप्त्वा सर्वमवरुध्य तदेवानुप्रविशदि य एवं वेद श्रीच्छायासुवर्चलाम्बा समेत श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय चतुष्टय्य आपो गृह्णादि चत्वारि वा अपागं रूपाणि मे विद्युद तनयत्नोर्वृष्टिः तन्येवावरुन्धे आदपदिवर्ष्या गृह्णादि ता पुरस्तादुपदधादि यदा वै ब्रह्मवर्चस्या आपः तस्मान ब्रह्मवर्चसमवरुन्धे तस्मान्मुखतो ब्रह्मवर्चसितरः कोऽप्या गृह्णादि ता दक्षिणद उप दधाति यदा वै तेजस्विनीरापः तेज एवास्य दक्षिणतो दधाति तस्माद् दक्षिणोर्धस्तेजस्वितरः स्थावरा गृह्णादि ताः पश्चादुपदधाति प्रतिष्ठिता वैष्ठावः पश्चादेव प्रतिष्ठति वहन्तीर्गृह्णाति ता उत्तरद उप दधाति ओजसा वा यदा वहन्तीरिवोद्गदिरिव आहूजतिरिव धावन्दीः ओज एवास्योत्तरदो दधाति तस्दुतरोधस्वी तरह संभ्या गृृ मध्य उपदे इशाव्या गृृपिष्टा दुप वै पल्व्या अमुष्यामेव प्रतितिष्ठति दिक्षु पदधाति दिक्षु वा आपः अन्नं वा आपः अद्भ्यो वा, वा अन्नं जायते यदे वाद्भ्योऽन्नं जायते तदवरुन्धे तं वा येदमरुणा केदवो वादरशना ऋषयो चिन्वन् तस्मादरुणकेदुकः तदेषाभ्यनूक्दा केदवो अरुणासश्च ऋषयो वादरशनाः प्रधिष्ठागुं शदधाहि समाहितासो सहस्रधाय समिति शतशश्चैव सहस्रशश्च प्रतिष्ठति ययेदमग्निं चिनु य उच्चैनमेवं वेद श्रीचायासुवर्चदाम्बा श्री नमः ॐ नमो नारायणाय जानुदग्नीमुत्तरवेदीं कृत्वा अपां पूरयदि अपागं सर्वत्वाय पुष्करपर्णगुं रुक्मं पुरुषमित्युपदधाति तपो वै पुष्करपर्णं सत्यगुं रुक्मः अमृतं पुरुषः यदावद्वास्ति यावदे तद तद् यावदेवास्ति तदवरुन्धे मेतम अपमेवमेतमवरुन्धे अधो स्वर्गस्य लोकस्य समष्ट्यै आपमा पामपः सर्वाः अस्मदस्म दिदो मुद् अग्निवायु सूर्य सख सक वाह रश्मिपत लोकम पृणश्शिद्रम पृण या परमजाइ्रको वसुभिरेवाख्ये वेदी पञ्चचितय उपदधाति वाङ्कृग्निः यनेवाग्निः तञ्चिनुते लोकं प्रणय्या द्वितीयामुपदधाति पञ्चपदा वैविराट् तस्याव वा इयं पादः अन्तरिक्षं पादः द्यौः पादः दिश्याः पादः परो रजाः पादः विराज्येव प्रतिष्ठति यदमग्निं चिनुदे य उ चैनमेवं वेद श्रीचायासुवर्चलाम्बा समेद श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अग्निम् अग्निं प्रणीयोपसमाधाय तमभितयेदा उपदधादि उपदधाति अग्निहोत्रे दर्शपूर्णमासयोः पशुबन्धे चादुर्मास्येशु अधो आहुः सर्वेषु यज्ञक्रतुष्विति अध हस्माहारुणः स्वायम्भुवः सावित्र सर्वोऽग्निरित्यननुषङ्गं मन्यामहे नाना वा यदृशां वीर्याणि कमग्निञ्चिनुदे सत्रियमग्निञ्चिन्वानः कमग्निञ्चिनुदे सावित्रमग्निं चिन्वानः कमग्निं चिनुदे नाचिकेदमग्निं चिन्वानः कमग्निं चिनुदे चादुर्गोत्रियमग्निं चिन्वानः कमग्निं चिन्नुदे कमग्निञ्चिनुदे उपानुवाक्यमाशुमग्निं चिन्वानः कमग्निञ्चिनुदे इममारुणकेदुगमग्निञ्चिन्वान इति पृषा वा अग्निः पृषाणौ सगुस्पालयेत् अन्येता अस्य यत्नः तस्मान्नानुषज्यः सोत्तरवेदिषु प्रदुषु चिन्विद उत्तरवेद्याग् अग्निश्चीयदे प्रजाकामश्चिन्विद प्राजापत्यो प्राजापत्या प्रजाः प्रजावान् भवति य एवं वेद पशुपामश्चिन्विद संज्ञानं वा यदत्पशूनां यतापः पशूनामेव संज्ञानेऽग्निं चिनुदे पशुमान् भवधि य एवं वेद वृष्टिकामश्चिन्विद आपो वै वृष्टिः पर्जन्यो वर्षुभो भवति य एवं वेद आमया वी चिन्विद आपो वै भेषजं भेषजमेवास्मै करोति सर्वमायुरेति अभिचरग्िन्वीद वज्रो वा आपः वज्रमे वभ्रादृवेभ्य प्रहरति तृणुद येन वर्चसकामस्वर्ग यशस्कामः ये तावद्वास्ति यावदेतद् यावदेवास्ति तदवरुन्धे तस्यै तद्व्रतं धावेद अमृतं वा आपः अमृतस्यानन्तरित्यै नाप्सु मूत्रपुरीशं कुर्याद न निष्ठीभेद न विवसनस्नायाद् गुह्यो वा यशोऽग्निः यदस्याग्नेरणदिदाहाय न पुष्करपर्णानि हिरण्यं वाधितिष्ठेद् ये दस्याग्नेभ्यारोहाय न कुर्मस्या स्नीयाद् नोदकस्या खादु पान्येन मोदकानि भवन्ति आकातु पा आपः येदमग्निं चिनुदे य ओ चैनमेवं वेद श्रीचायासुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय इमानुकम् भुवना शीर्षधेम इन्द्रश्च विश्वे च देवाः यज्ञञ्च नस्तन्वञ्च प्रजाञ्च आदित्यैरिन्द्रः सह शीर्षधादु आदित्यैरिन्द्रः स गणो मरुद्भिः अस्माकम् भूत्वविदातनूनाम् आप्लवस्व प्रप्लवस्व आंडी भवजमा सुखादीन् सुखादीन प्रदि मुञ्जस्व स्वां पुरं मरीचयस्व यम्भुवाः ये शरीराण्यकल्पयन् ते ते देहं कल्पयन्तु ्यास्मतीरिषद उत्तिष्ठदमा स्वप्न अग्निमिच्छध्वं भारताः राज्ञ सोमस्य तृप्ता सह सूर्येण स सा युजोषसः यु सुवासाः अष्टाचक्रा नवद्वारा देवानां पूरयोध्या तस्यागुं हिरण्मयः कोशः स्वर्गो लोको ज्योतिषावृतः यो वैदां ब्रह्मणो वेद अमृतेना वृदां पुरीं तस्मै ब्रह्माच च ब्रह्मा च आयुकीर्तिं प्रजा यशसा सम्परी वृथा पुरगं हिरण्मयीं ब्रह्मा विवेशा पराजिता पराङ्गेत्य ध्यामयी पराङ्गेत्यनाशकी इह चामुत्र विद्वान् देवासुरानुभयान् यत्कुमारी मन्त्र यदे यद्योषिदृत्पतिवृता यत अरिष्टम् यत्किञ्च क्रियते अग्निस्तदनुवेदधि अश्रुतास श्रुतासश्च यज्वानो येऽप्ययज्वनः स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निम् जये सिकता इव सय्यन्ति रश्मिभिः समुदीरिदाः अस्मल्लोकादमुष्मा च ऋषिभिरदात् प्रश्निभिः अपेदविदवि च सर्पतातः यत्रस्त पुराणा ये च यमो दधाव वसानमस्मे नृमुनंदो नृपावर्य आकष्टा ये जृजा कुमार कनीषु जिनीषु रेधपीदा अण्डपीदाः अङ्गारेषु च उभयान हुदाः उभयान् पुत्रपौत्रगान् यो वे हयमराजगान् शतमिन्नु दो यद्ब्रह्मविलम्बं पितृणाञ्च यमस्य च वरुणस्याश्विनो रग्नेहे मरुताञ्च विहायसां कामप्रयवणं मे अस्तु सख्येवास्मि सनातनः इति नागो ब्रह्मिश्रवो रयोधनं पुत्रानाभो श्री श्रीचायास् सुवर्चलाम्ब समेध श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय विशीर्ष्णीं गृध्रशीर्ष्णिं च अपेदो निरुदिगुं हतः परिबाध्वेदकुक्षं निजङ्घुं शबलोदरम् सतान् वाच्यायया अग्ने नाशय संद्रशः ईर्ष्या सूये बुभुक्षां मन्युं कृत्याञ्च धीधिरे रथे नकिगुं शुकावदा अग्ने नाशय सन्दृशः श्रीछायासुवर्चलाम्बा समेधश्री सूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय पर्जन्याय प्रगायद दिवस्पुत्राय मीढुषे स नो यवसमिच्छदो इदं वजः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तद्युयोध मयो भूर्वादो विश्वकृष्टयः सन्त्वस्मि सुपिषधीर्देवगोपाः यो गर्भमोषधीनां गवां कृणोत्यर्वदां पर्जन्यपुरुषीणां श्रीछायासुवर्चलाम्ब समेध श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय पुनर्मा मैत्विन्द्रियं पुनरायुः पुनर्भगः पुनर्ब्राह्मणमैदूमा पुनर्द्रविणमैदूमा यन्मेद्यरेधपृथिवीमस्कान् यदोषधीरप्य सरद्यदापः इदं पुनराददे दीर्घायुत्वाय वर्चसे यन्मेरेदप्रसिध्यदे यन्म आजायदे पुनः तेन माममृदं कुरु तेन सुप्रजसं कुरु श्रीछाया सुवर्चलाम्बा बासमेदश्री। सूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय अद्भयस्तिरोधा जायदा तव वैश्रवणः सदा तिरोधे हि सपत्नान्नः ये अपोष्णन्ति केचन त्वाष्ट्रीं मायां वैश्रवणः रथगुं सहस्रबन्धुरन् पुरुश्चक्रगुं सहस्राश्वम् आस्तायाहिनो बलिं यस्मै भूतानि बलिमावहन्ति धनं गावो हस्ति हिरण्यमश्वान असामसुमतौ यज्ञस्य श्रियं बिभ्रदोन्नमुखीं विराजम् सुदर्शने चक्रौञ्चे च मैनागे च महागिरौ शदद्वाट्टारगमन्ता सगं हार्यं नगरं तव यदि मन्ध्रा कल्पोदवोर्ध्वं यदि बलिगुं हरेद हिरण्यनाभये विदुदये कौबेरायां बलिः भूताधिपत नम यदि अथ बलिगुम हृत्वतिषेद क्षत्र क्षत्रं वैश्रवण ब्राह्मण वैग्स्म नमस्ते अस्त मिगुंसी अस्मा प्रविश्या मध्य अधतमग्निमा दधीत यस्मिन्नेतत्कर्म प्रयुञ्जीद तिरोधा भूधा तिरोधास्वः तिरोधा भूद्भुवस्वः तिरो तिरो सर्वेषालोकानामाधिपत्ये सीदेति अध तमग्निमिन्धीद यस्मिन्नेतत्कर्म प्रयुञ्जीद तिरोधा भूस्वाहा तिरोधा भुवः स्वाहा तिरोधास्व तिरोधा तिरोधा तिरोधा स्वाहा यस्मिन्नस्य काले सर्वा आहुतिर्हुदा भवेयुः अभिभ्राह्मणमुखीनाः तस्मिन्नाग्नकाले प्रयुञ्जीद परसुप्त मा स्म प्रमाद्यन्त माध्यापयेद सर्वार्था सिद्ध्यन्ते य एवं वेद क्षुध्यनिदमजान सर्वार्था न सिद्ध्यन्ते यस्ते विखातु गोभ्राधा ममान्तर्हृदये श्रुतः तस्मा इमममग्रपिण्डं जुहोमि समेर्थान्मा विवधीद मयि स्वाहा राजाधिराजाय प्रसह्यसाहिने नमो वयं वै श्रवणाय स मे कामान् कामकामाय कामेश्वरो वैश्रवणो दधातु कुबेराय वैश्रवणाय महाराजाय नमः केदवो अरुणासश्च ऋषयो वादरशनाः प्रतिष्ठा गुंशदधाहि समाहिदासो सहस्रधायसं सन् शिवानः सन्तमा भवन्तु दिव्या आप ओषधयः सरस्वती मा देव्योम सन्दृशी श्री सूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय संवत्सरमे दद्वञ्चरेद द्वौ वा मासाः नियमसमासेन तस्मिन् नियमविशेषाः त्रिशवणमुदकोपस्पर्शी चतुर्थकालपानभक्तः स्याद अहरहर्वा भैक्षमीयाद औदुम्परीभिः समेद्भिरग्निं परिचरेद पुनर्मा मैत्विन्द्रिय मित्येतेनानुवाकेन उद्धृत परिपूदाभिरद्भिः कार्यं कुर्वीद असञ्चयवान् अग्नये वायवे सूर्याय ब्रह्मणे प्रजापदये चन्द्रमसे नक्षत्रेभ्यः ऋधुभ्य संवत्सराय वरुणाय अरुणा ये प्रवर्ग्य वदादेशः अरुणा काण्डऋषयः अरण्ये धीरन् भद्रं कर्णेभिरिदि द्वे जपित्वा महानाम्नीभिरुदकगुंसगुस्पर्श्य तमाचार्यो दद्याद शिवा न सुमृडीकेदिभूमिं येव मपवर्गे धेनुर्दक्षिणां कगुं संवासश्च क्षौमम् अन्यद्वा शुक्लं यद्धा शक्तिवाक् यस्वाध्यायधर्मेण तपस्वी पुण्यो भवति तपस्वी भवति श्रीचायासुवर्चलाम्बा समेधश्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय स्वामिन् प्रसीद प्रसीद ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यशेमदेव हृदयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति न स्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः